मार्कण्डेयपुराणम् अध्यायं फोर्टि दत्तात्रेय उवाच उपसर्गाः प्रवर्तन्ते दृष्टेक्ष्यात्मनियोगिनः ये तां स्ते सम्प्रवक्ष्यामि समासेन निबोधमे काम्या क्रियास्तथा कामान् मानुषानभि वाञ्छति स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवं देवत्वमरेशत्वं रसायनछयाक्रियाः मरुत्प्रपतनं यत्नं जलग्न्या वेशनं तथा श्राद्धानां सर्वदानानां फलानि नियमांस्तथा तथोपवासात्पूर्ताच्च देवताभ्यर्चनादपि तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेद ब्रह्मसङ्गिमनः कुर्वन्नुप सर्गात् प्रमुच्यते उपसर्गजिदैरेभिरुपसर्गास्ततः पुनः योगिनः सम्प्रवर्तन्ते सात्वराजसतामसाः प्रादिभिः श्रावणो दैवो भ्रमावस्तौ तथा परौ पञ्चैदे योगिनां योगविक्राय कडुकोदयाः वेदार्था काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः प्रदिभान्ति यदस्येदिप्रादिभुयोगिनः शब्दार्थानाखिलान् वेत्ति शब्दं गृह्णादि चैव यद यो जनानां सहस्रेभ्य श्रावणसोऽभिधीयते मम दाद्वीक्षते चाष्टौ स यदा देवतोपमः उपसर्गन्दमप्याहुर्दैवमुन्मत्तवद्बुधाः भ्राम्यदे योगिनः समस्ताचारविभ्रांशाद्भ्रमस भ्राम्षा परिकीर्तितः आवर्त इव तो यस्य यदा कुलः नाशये चित्तमावर्त उपसर्ग उच्यते ये तैर्नाशिधयोगास्तु सकलादेवयो नयः उपसर्गैर्महाकोरैरावर्तन्ते पुनःपुनः प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयं चिन्तयेत् परमं ब्रह्म कृत्वा तत्प्रवणं मनः योगयुक्तः सदा योगी सूक्ष्मास्तु धारणासप्त भूराद्या मूर्ध्नि धारयेद् धरित्रीं धारयेद्योगी तत्सौक्ष्म्यं प्रतिपद्यते आत्मानं मन्यते चोर्वो तद्गन्धं च जहादिशः यथैवाक्षुरसं सूक्ष्मम् तद्वद्रूपञ्च तेजसि स्पर्शं वायो तथा तद्वद्विभ्रदस्तस्य धारणां व्योम्रः सूक्ष्मां प्रवृत्तिं शब्दं तद्वज्जहादिशः मनसा सर्वभूतानां मनस्याविशदे यदा मनसिं धारणां बिभ्रन्मनःसूक्ष्मञ्च जायते तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगविद परित्यजति सम्प्राप्य बुद्धि सौक्ष्म्यमनुत्तमम् परित्यजति सूक्ष्माणि सप्तत्वेदानि योगविद सम्यग् विज्ञाययो लर्क तस्या वृत्तिर्न विद्यते एतासां धारणानां तु सप्तानां सौक्ष्म्यमात्मवान् दृष्ट्वा दृष्ट्वा तदसिद्धिं त्यक्त्वा त्यक्त्वा, त्यक्त्वा परां व्रजेद् यस्मिन यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते तस्मिंस्तस्मिन् समासकृतिं सम्प्राप्य स विनश्यति तस्माद् विदित्वा सूक्ष्माणि संसक्तानि परस्परं परित्यजति यो देही सपरं प्राप्नुयात्पदं वेदान्येव सन्धाय सप्त सूक्ष्माणि पार्थिव भूतादीनां विरागोत्र सद्भावज्ञस्य मुक्तये गन्धादिषु समासकृतिं सम्प्राप्य स विनश्यति पुनरावर्तते भूप सब्रह्मा सब परमानुषं सप्तैदा सब धारणायोगी समतीत्य यदिच्छति तस्मिन् तस्मिल्लयं सूक्ष्मे भूदेयादि नरेश्वर देवानामसुराणां वा गन्धर्वोरगरक्षसां देहेषु लयमायादि सङ्गं नाप्रोदि च अणिमालकिमा चैव महिमा प्राप्तिरेव च प्राकाम्यं च तथेचित्वं वशित्वं च तथा परं यत्र कामावसायित्वं गुणान्नेदांस्तदैश्वरान् प्राप्नोत्यष्टौ नरव्याघ्र परं निर्वाणसूचकान् सूक्ष्मात् सूक्ष्मतमोणीयान् शीघ्रत्वं लखिमा गुणः महिमा शेषपूज्यत्वात् प्राप्तिर्ना वाकित्वा योगिन वाकित्वाद्वशिमानामयोगिनसप्तमो गुणः यत्रेच्छास्थानमप्युक्तं यत्र कामावसायिता ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा मुक्तिसंसूचकं भूप परं निर्वाणमात्मनः तदो न जायते नैव वर्धतेन विनश्यति नापिक्षयमवाप्नोति परिणामं न गच्छति चेदं क्लेदं तथा दासं शोषम्भूरादिदो न च भूतवर्गादवाप्नोति शब्दाध्यैह्रियते न च न चास्य सन्ति शब्दाद्यास्तद्भोक्त्रा तैर्न युज्यते यथाहि कनकं खण्डमपद्रव्यवदग्निना दग्धदोषं द्विदीयेन नविशेषम वाप्रोदि तद्वद्योगाग्निना यदिः निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेद् तदाख्यस्तन्मयोभूतो न गृह्येदविशेषतः परेण ब्रह्मणा तद्वत्प्राप्यैक्यं दग्धकिल्विषः योगी यादि पते योगीयादिपृथाचिमीपते तदात्मा नैक्य निक्षिप्तगछति तदात्म साम्यमेदि योगि परीम मारकंडेयपुराणे योग चत्वारिं चरिशोध्याय ओम